श्रीहरये नमः अत त्रयोदशोऽध्यायः श्रीभगवानुवाच सत्वं रजस्तम इति गुणा भुक्तेर्न चात्मनः सत्त्वे नान्यतमो हन्यात् सत्त्वं सत्त्वेन चैव हि सत्त्वाद्धर्मो भवेत् वृद्धात् पुंसो मद्भक्तिलक्षणः सात्विकोपासया सत्त्वं ततो धर्म प्रवर्तते धर्मो रजस्तमो हन्यात् आसुनस्यति तन्मूलो ह्यधर्म उभयेहते आगमोपप्रजादेशकालकर्म च जन्म च ध्यानं मन्त्रोत संस्कारो दसैते गुणहेतवः तत्तत् सात्मिकवेवैषां यत् यत् वृद्धा प्रचक्षते निन्दन्ति तामसं तद्धत् राजसं तदुपेक्षितं सात्विकान्येव सेवेत पुमान् सत्त्वविवृद्धये ततो धर्मस्ततो ज्ञानं यावस्मृति अभोहनं वेणुसङ्घर्षजो भग्निर्ध्वा सां यतितद्वनम् एवं गुणव्यत्ययजो देहः सां यति तत्क्रियः उद्धवो वाच विदन्तीमत्याप्रायेण विषयान् पदमापधां तथापि पुञ्जते कृष्ण तत्कथं स्वकरा जवत् श्रीभगवानुवाच अहमित्यन्यथा बुद्धि प्रमत्तस्य यथा हृदि उत्सर्पतिरजो घोरं तथो वैकारिकं मनः रजो युक्तस्य मनसः सङ्कल्पः स विकल्पकः ततः कामो गुणत्यानात् दुःसहस्याद्धि करोति कामवसखकर्माणि अभिजितेन्द्रियः दुःखो दर्काणि सम्पश्यन् रजो वेगविमोहितः रजस्तमोभ्यां यदभि विद्वान् विक्षिप्तधि पुनः अतन्दृतो मनो युञ्जन् दोषदृष्टिर्न सज्जते अप्रमत्तो नो युञ्जीतमनोमय्यर्पयञ्चनैः अनिर्विण्णो यथा कालं जितश्वासो जितासनः एतावान् योग आदिष्टो मच्चिष्यैसनखादिभिः सर्वतो मन आकृष्य मय्यद्धास्वेष्यते यथा उद्धवो उवाच यथाध्वं सनखादिभ्यो रूपेण केशवयोगमादिष्टवान् एतत् रूपमिच्छामि वेदितुम् श्रीभगवानुवाच पुत्रा हिरण्यगर्भस्य मानसासनकाधयः पप्रच्छुप्पितरं सूक्ष्मां योगस्यैकान्तिकीं गतिं सनकतयवूचो गुणेषु आविशते चेतो गुणाश्चेतिसि च प्रभो कथमन्योन्यसन्त्यगो मुमुक्षोरतितिश्रोः से भगवानुवाच एवं पृष्टो महादेव स्वयं भूर्भूतभावनः ध्यायमानः प्रश्नबीजं नाव्यपद्यतकर्मधीये स मामचिन्तयत् प्रसन्नपारतितीर्षया तस्याः हंसरूपेण सह समगमं तदा दृष्ट्वा मां ब्राह्मणम् अग्रत कृत्वा भप्रच्छुको भवानिति इत्यहं मुनिभिः स्पृष्टस्तत्त्वजिज्ञासुभिस्तधा यदवोचमहं तेभ्यस्तदुद्धवनिभोतमे वस्तुनो यद्यनाना त्वम् आत्मनः प्रश्न ईदृशः कथं घटेत वो वक्तुर्वामेक आश्रयः पञ्चात्मकेषु भूतेषु समानेषु च वस्तुतः को भवानिति प्रश्नो वाचरं भोह्यनर्थकः मनसा वचसा दृष्ट्या गृह्यतेऽन्यैरवीन्द्रियैः अहमेव न मध्योर्यति बुद्ध्यध्वम् अञ्जसा गुणेष्वाविसते चेतो गुणाश्चेतसि च जीवस्य देहमुभयं गुणाश्चेतो मधात्मनः गुणेषु चाविच्चित्तमभीष्णं गुणसेवया गुणाश्च चित्तप्रभव मद्यरूप उभयं त्यजेत् जाग्रत्स्वप्नसु शुक्तं च गुणतो भुत्तिवृत्तयः तासां विलक्षणो जीवसाक्षित्वेन विनिश्चितः यर्हि संश्रुतिबन्तो य आत्मनो गुणवृत्तिदः मयि तुर्ये स्थितो जज्ञात्यागस्तद्गुणचेतसाम् अहङ्कारकृतं बन्धम् आत्मनोऽर्थविपर्ययं विद्वान्निर्विद्यसंसारसिन्तां तुर्ये स्थितस्त्यजेत यावन्नानार्थधीपुंसो न निवर्तेत युक्तिभिः जाख्यर्त्वभि स्वपनज्ञ स्वप्ने जाकरणं यताम् असत्त्वातात्मनोऽन्येषां भावानां तत्कृताभितां गतयोगे तवश्चास्य मृषा स्वप्नदृशो यतां यो जागरे बहिरनुक्षणधर्मिणोर्तान् भुङ्क्ते समस्तकरणैर्हृदि सदृशान् स्वप्ने सुषुप्त उपसंहरते स स्मृत्यन्द्वयात्रिगुणवृत्तिधृकिन्द्रियेशः एवं विमृष्य गुणतो मनसस्त्रयवस्था मन्मायया मयि कृता इति निश्चितार्था सञ्चित्यहार्थमनुमानसधुक्तितीक्ष्ण ज्ञानाशिना भजत वा किल संशयाधिम् ईशेत विभ्रममितं मनसो विलासं दृष्टं विनष्टमतिलोलमलातचक्रं विज्ञानमेकमुरुधेव विभाति माया स्वप्नस्रिधागुणविसर्गकृतो विकल्पः दृष्टिं ततः प्रतिनिवर् निवृत्ततृष्णस्तूष्णीं भवे निजसुखानुभवो त्यक्तम् भ्रमाय न भवेत् स्मृतिरा निपात देहं च न वा सिद्धो न पश्यति यतोऽद्य गमत्स्वरूपम् दैवात् वासो यथा परिकृतम् अधिरामधान्तः देहाभि देहोभिधैव वसघ खलु कर्म यावत् स्वारम्भकं प्रति तं सप्रपञ्चम् अधिरूढसमाधियोगः स्वप्नं पुनर्स्वाप्नं पुनर्न भजते प्रतिभुक्तवस्तुः मयैतदुक्तं वो विप्रगुह्यं यत्साङ्ख्ययोग्ययोः जानीतमागतं यज्ञं युष्मद्धर्मविवक्षया अहं योगस्य साङ्ख्यस्य परायणं द्विच श्रेष्ठा श्रियकीर्तेर्धमस्य च मां भजन्ति गुणाः सर्वे निर्गुणं निरपेक्षकं सुहृतं प्रियमात्मानं साम्या सङ्घातयो गुणाः इति मे चिन्नसन्देहामुनयक्सनकादयः सभाजयित्वा परया भक्त्या कृणतसंस्तवैः तैरकं पूजित सम्यक् संस्तुतः परमर्षिभिः प्रत्ययाय स्वकन्धामपश्यतः परमेष्टिनः इति श्रीमद्भगवते महापुराणे एकादशस्कन्ते त्रयोदशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्धा